अथ षोडशोऽध्यायः शौनक उवाच सौते त्वम् कथय स्वे माम् विस्तरेण कथाम् पुनः आस्ति कवेः साधोः शुश्रूषा परमाहिनः मधुरम् कथ्यते सौम्य श्लक्ष्णाक्षरपदम् त्वया प्रियामहे भृशम् तात पिते वेदम् प्रभाषसे अस्मच्छुश्रोषणे नित्यम् पिता हि निरतस्तव आचष्टैतद्यथाख्यानम् पिता ते त्वम् तथा वद सौतिरुवाच आयुष्मन्निदमाख्यानम् आस्तीकम् कथयामि यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया पुरा देवयुगे ब्रह्मान् प्रजापतिसुते शुभे आस्ताम्भगिन्यौ रूपेण समुपेतेऽद्भुते नघ ते भार्ये कश्यपस्यास्तां कद्रोश्च विनताचः प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमःपतिः कश्यपो धर्मपत्नीभ्यां मुदापरमयायुतः वरातिसर्गं श्रुत्वैवं कश्यपादुत्तमं च हर्षादप्रतिमां प्रीतिं प्रापतुः वरस्त्रियौ वव्रे कद्रोः सुतार्नागान् सहस्रं तुल्यवर्चसः सह, द्वौ पुत्रौ विनता कद्रोपुत्राधिकौबले तेजसा वपुषा चैव विक्रमेणाधिकौचतौ तस्यै भर्तावरं प्रादादत्यर्थं प्युत्रमीप्सितम् एवमस्त्वितितं चाह कश्यपं विनता तदा यथावत्प्रार्थितं लब्ध्वा वरं तुष्टा भवत्तदा कृतकृत्या विनता लब्ध्वा वीर्याधिकौ सुतौ लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसां धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स ए भार्येवरसंतुष्टे कश्यपोवनमाविशत् सौतिर्वाच काले नमहता कद्रो रण्डानां दशतीर्दश जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा तयोरण्डानि निदधुः प्रसृष्टाः परिचारिकाः सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च ततः पञ्चशते काले कद्रोपुत्राविनिःसृताः अण्डाभ्यां विनता यास्तु मिथुनं न ततः पुत्रार्थिनी देवि व्रीडिता च तपस्विनी अण्डम् बिभेद विनत तत्र पुत्रमपश्यत पूर्वाधकाय सम्पन्नमितरेण प्रकाशत सपुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः योऽहमेवम् कृतो मातस्त्वया लोभपरीतया शरीरेणासमग्रेण तस्माद्दासी भविष्यसि पञ्चवर्षशतान्यस्य यया विस्पर्धसे एष चत्वांसुते मातर्दासीत्वान्नोचयिष्यति यद्येनमपि मातस्त्वम् मामिवाण्डविभेदनात् न करिष्यस्यनङ्घम् वा व्यङ्गम् वापि तपस्विनम् प्रतिपालयितव्यस्ते जन्मकाले स्य विशिष्टम् बालमीप्सन्त्या पञ्चवर्षशतात्परः एवम् षप्त्वा ततः पुत्रो विनतामन्तरिक्षगः अरुणो दृश्यते ब्रह्मान् प्रभातसमये तदा आदित्यरथमध्यास्ते सारथ्यं समकल्पयत् गरुडोऽपि यथा कालं जज्ञेपन्नगभोजनः स चातमात्रोविनतां परित्यज्यखमाविशत आदास्यन्नात्मनो भोज्यमन्नं विहितमस्ययत विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः इति श्रीमहाभारते आदिपर्वणि आस्तिकपर्वणि सर्पादीनामुत्पत्तौ षोडशोऽध्यायः